अथर्वेदे प्रथमाष्टके पञ्चमोऽध्यायः ओ प्रमन् महे शवसानाय शोषमाङ्गोषङ्गिर्वणसे अङ्गि अस्वत् सुवृत्तिभिस्तु पतग्नियाच्च मार्कन्न रे विश्रुताय प्रवो महे महि नमो भरध्वमाङ्गोष्यम् शवसानय येना पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा इन्द्रम् इन्द्रस्याङ्गिरसाञ्चेष्टौ विदत्सरमातनयायधासिम् बृहस्पतिर्भिनद्रिम् विदद्गाः स सुष्ठु भासस्तु भासत्तभिप्रैः स्वरेणाद्रिम् स्वर्यो ओनभ्वैः अरण्युभिः फलिगमिन्द्रशक्रबलम् रवेणदरजोदशग्वैः गृणानो अङ्गिरोभिर्दस्मपि वरुषदा सूर्येणरोभिरन्धाः विभूम्या अप्रसय इन्द्रसानुदिवो रज तदुपप्रयक्षतममस्य कर्मदस्मस्य चारुतममस्ति दंसाः उबह्वरे यदुपरा अपिभर्णसो नद्या अश्चतस्रः दिता विभौ रे सनजासनीळे अजास्यस्तव मानेभिरर्कैः भगोन मेने परमेव्यो मन्नधारय त्रोदसी सुतंसाः सनाद्दिवम् परिभूमा विरूपे पुनर्भुवायुवती स्वेभिरेवैः कृष्णेऽभिरक्तोषारुषद्भिर्वपुर्भिराचरतो अन्यान्याः सरेमि सख्यम् स्वपश्यमानः सो दुर्दाधारशमसा सुः आमासु चिद्दधिषे पक्वमन्तः पयः कृष्णासु ऋषद्रोहिणीषु सनात्सनेला अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः पुरो सहस्राजनयो न पत्नीर्दुहस्यन्ति स्वसारो अह्रयाणम् सना युवो नमसानम् यो अर्कैर्वसूयवो मतयोदस्मदद्रुः पतिन्न पत्नीरुशती रुशन्तम् स्पृशन्ति त्वा स नादेवतवरा योगभस्तौ न क्षीयन्ते नोपदस्यन्ति तस्म युमाम् असि क्रतुमाम् इन्द्रधीरः शिक्षाः शचीवस्तव न शचीभिः स नायते गोतम इन्द्र नव्यमतक्षद्ब्रह्म हरियोजनाय सुनीथाय नश्यवसानोधाः तम् महा इन्द्रयो ह सुष्मैर्द्यावा आज्ज्ञानः पृथिवी अमेधाः यद्धते विश्वा गिरयश्चिदभ्वाभिया दृह्सः किरणा नैरन् आयद्धरी इन्द्रविव्रता वे राते वज्रञ्जलिता बाह्वोर्धात् एनाविहर्य तक्रतो अमित्रान्पुरतिष्णासि पुरुहूत पूर्वीः त्वम् सत्य इन्द्रदृष्णुलेताम् त्वमृभुक्षा न्यस्त्वं षाट् त्वम् सुष्णम् यूने कुत्साः यद्युमते सराहन् त्वम् हत्यदिन्द्रचोदीः सखाः वृत्रम् यद्वज्रिन् म् हत्यदिन्द्राषण्यम् दृह्स्य चिन्मत्ता नाम दुष्टौ या अस्मदा काष्ठा अर्वते वर्घनेव वज्रिंसति ह्यमित्रान् त्वाम् हत्यदिन्द्रार्णसातौ स्वर्मिहे नर आदाहवन्ते तव स्वथाव इयमासमर्य ऊतिर्वादेष्वतसाया भूत् न्द्रसप्तयुध्यन्पुरो वज्रिन्पुरुकुत्सायदर्दः बर्हिर्न यत्सु दासेवृथा वर्गम् होरा जन्मरिवः पूरवेकः त्वन्त्यन्न इन्द्रदेवचित्रामिशमापोऽनपीपयः परिज्मन् ययाशुरत्प्रत्यस्मभ्यञ्जम् सिग्म नमूर्जन्न विश्वदक्षरद्भ्यै अकारितरिन्द्रगोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम् सुपेशसंवादमाभरा नः प्रातर्मक्षु धियापसृजगम्यात् पृष्णे शर्द्धायसुमखाय मेधसेनोधः सुवृत्तिम् प्रभरा मरुद्भ्याः अपो न धीरो मनसा सुहस्यो गिरः समन्ये विदधेष्वाभुवाः तेजद्विरे दिवरुश्वासनभुक्षणोः रुद्रस्य मर्या असुरा अरेपसाः पावकाश्रुचयः सूर्याः इव सक्ताः नो रद्रप्सिनोः युवा नो रुद्राः अभोघनो वक्षुरध्रिगा वः पर्वता इव दृह्चिद्विश्वा भुवनानि पार्थिवाप्रच्याः चित्रैरञ्जिभिर्वपुषे व्यञ्जते वक्षः सुरुक्माम् अधियेतिरे शुभे हंसेष्वेषान्निमिमृक्षतरुष्टयः साकम् जज्ञिरे स्वधया आदिवो नराः ईशानकृतोऽधुनयोरिषादसोवाता विद्युतस्तविशीभिरकृता दुहन्त्यो धर्दिव्यानिधूतयो भूमिम् पिन्वन्ति पयसा परिज्रयः हिन्वन्त्यपो मरुतः सुदानवः पयो धृतवद्विदधेष्वाभुवाः अत्यन्नमिहे विनयन्ति वाजिनमुत्सन् लुहन्ति स्तनयन्तमक्षितम् महिषासो मालिनश्चित्रभानवो गिरयोरस्वतवसो रघुष्यदा मृगा इव हस्तिनः खादथापनाय दारुणीषुतपि शीरयुद्धम् सिंहा इव नानदतिप्रचेतसः पिशा इव सुपिशो विश्ववेदसः क्षपो जिन्वन्तः पृषतीभिर्दृष्टिभिः समित्सराधश्च वसाहि मन्यवः रोदस्री आवदता गणश्रियोदृशा च शूराश्च वसाहि मन्यवः मरुतो रथेषु विश्ववेदसो रजिभिः समोकसः सम्मिश्लासस्तविशिभिर्विरप्सिनाः हस्तारयिषुन्दधिरे गभस्योरनन्तशुष्मावृषखादयो नराः हिरण्ययेभिः पविभिः पयो वृथगुज्जिघ्नन्द आपथ्योरपर्वतान मखाया स स्वसृतो ध्रुवच्युतो दुद्ध्रकृतो मरुतोऽभ्राजदृष्टयः घृषुम् पावकम् वरिणम् विचर्षणि रुद्रस्य सूनुम् हवसाः गृणीमसि रजस्तुरम् तव संवारुतम् गणमृजेषिणम् वृषणम् सश्च तश्रिये प्रणो अतितस्थौ वूती मरुतो यमावत अरुवद्भिर्वाजम् भरते धनानृभिराकृथ्यम् क्रतुमाक्षेति पुष्यति चर्कृत्यम् मरुतःपृत्सु दुष्टरम् द्युमन्तम् सुष्मम् मघवत्सुधत्तन धनस्पृतमुख्यम् विश्वचर्षणीम् तोकम् पुष्ये मतनयम् शतम् हिमाः नोष्ठिरम् मरुतो वीरवन्तमृतेशाहम् रजिमस्मासु सहस्रिणम् शचिनम् शुशुवांसम् प्रातर्मक्षो धियावसृजगम्यात् पश्वानतायुम् गुहाचतम् तम् नमो युजादन्नमो वहन्तम् सजोषाधीराः पदैरनुग्सीदम् विश्वेयजत्राः ऋतस्य देवा अनूता गुर्भुवत्परिष्टिर्त्योर्नभुव वर्धन् देवापः पन्वासुशिस्विमृतस्य यो नागर्भे सुजातम् पुष्टिर्नरण्वाक्षितिर्न पृथ्वीगिरिर्न भुज्मक्षोदो न शम्भो अत्योनाज्मन्सर्गप्रदत्तः सिन्धुर्नक्षोदः वराते जामिः सिन्धो नाम् भ्राते वस्वस्रामिभ्यान्न राजावनान्यतीम् यद्वातजूतो वनाव्यस्थादग्निरहदातिरोमा पृथिव्याः श्वसित्यर्सुहंसो न सीरम् कृत्वा चेतिष्ठो विषामुषद्भुत् सोमो न वेधाृतप्रजातः कर्क्वा न भूर्निर्वनासि शक्तिपयो न धेनुश्युचर्विभावा दाधारक्षे ममो को न रण्वो यवो न पक्वोजेता जनानाम् ऋषिर्नस्तुभ्राः विक्षुप्रशस्तो वाजीन प्रीतो वयो दधाति दुरोकशो चिक्रतुर्न नित्यो जाये वयो नामरम् चित्रो यदभ्राट् श्वेतो न विक्षवतो न रुक्मीत्वेषः समत्सु सेनेव सृष्टा मन्ददात्यस्तुर्न दिद्युत्त्वेषप्रतीका यमोहजातो यमोजनित्वञ्जारः कलीनाम् पगर्जनीनाम् तम् वश्चराथाभयम्ब सत्यास्तन्न का सिन्धुर्न क्षोदः प्रणीचीरयिनोन्नवन्दगावस्वा अर्दृशी के वनेषु जायुम् अर्तेषु मित्रो वृणीते सृष्टिम् राजेवाधुर्यम् क्षेमो न भद्रो भुवत्स्वाधीरुहोता हव्यट् हस्ते तथा नो नृम्ना विदन्ते मत्र नरोधि यन्धा हृदायत्तष्टान्मन्त्रामशंसन् अयो रक्षान्दाधारपृथिवीन्तस्तम् भद्यान् मन्त्रेभिः सत्यैः प्रियापदानि पशोरिपाहि विश्वायुरग्ने गुहागुहङ्गाः य ईञ्जिकेत गुहाभवन्तमायः ससा दधारा अमृतस्य विये छुतन्त्र्यतासपन्त आदिद्वसो निःप्रभवाचास्मै वियो वीरुत्सुरोधन्महित्व प्रजा उत प्रसोष्वन्तः चित्तिरपान्दमे विश्वायुः सद्मे बधीरा संवायचक्रुः श्रीणन्नुपस्थादिवम्भुरण्यस्थातुश्चरथमत्तोऽन्न्योऽर्नोत पर्यदेेषामेको विश्वे शाम्भुवद्देवो देवानाहम् महित्वा आदित्ते विश्वे क्रतुम् दुषन्तशुष्काद्यद्देव जीवो जनिष्ठाः भजन्त विश्वे देवत्पन्नामहृतम् समन्तोऽमृतमेवैः ऋतस्य प्रेषाः ऋतस्य धीतिर्विश्वायुर्विश्वे अपां विचक्रुः यस्तुभ्यम् दाशाद्यो वा ते शिक्षात्तस्मै चिकित्त्वा नयिन्दयः मनोरपत्ये सचिन्वाः साम्पतीरीणाम् इच्छन्त रेतोः मिथस्तनूषु सञ्जा न तस्वैर्दक्षैरमोराः पितुर्न पुत्राः क्रतुञ्जुषन्तः श्रोषन्ये विराज और्णोर्दुरः पुरुक्षुः पिपेशनाकंसृभिर्दमो नाः शुक्रशु शुक्वाङ्कुशो न दारः पप्रा समीची दिवो न ज्योतीः परिप्रजाः ततः क्रत्वा बभूथ भुवोः देवानाम् पिता जनेन सेव आहूर्यः सन्मध्ये निषत्तो रणण्ो दुरोणे पुत्रो न जातो रण्वो प्रीतो विशो वितारीत् विशोयदह्वेनभिः सनीडा अग्निर्देवत्वा विश्वान्यस्याः न किष्ट एताव्रता मिनन्दि निर्भ्यो यदेभ्यः सृष्टिम् चकर्था तत्तु तेदं सो यदहं समानैर्नृभिर्यद्युक्तो विवेरपान्ति वुषो न दारो विभावास्रः सञ्ज्ञातरु पश्चिके तदस्मै त्मना वहन्तो दुरोऽभिरन्वन्नवन्त विश्वे स्वा अदृशी के आदैव्यानिव्रता चिकित्ता नामानुषस्य जनस्य जन्म गर्भो यो अपाङ्गर्भो वनानाम् गर्भश्च स्थाताङ्गर्भश्च अद्रौ चितस्मा अन्तर्दुरोणे विशान्न विश्वो अमृतस्वाधीः स हि क्षपावाग्नेरयीणान्दाशद्यो अस्मारम् सूक्तैः एताजिके त्वो भूमानि पा हि देवानाञ्जन्ममर्तां श्र विद्वान् वर्धान्यम् पूर्वीः क्षपो विरूपा स्थातुश्चरथमृतप्रगीतम् अराहाधिहोता स्वा अर्निषत्तः कृण्वन् विश्वान्यपांसि सत्या गोशु प्रशस्तिम् वने शुधिषेभरन्दविश्वेः बलिम् स्वर्णः वित्पानरः पुरुत्रा सपर्यन् पितुर्नजि मृगेर्विभेदो भरन्त साधुर्नगृध्वरस्तेवशूरो यातेव भीमः समत्सु उपप्रजिन्वन्नुषती रुषन्तम् पतिन्न नित्यञ्जनयः स नीडाः ससाहारश्यावीमरुषीमजुष्रञ्चित्रमुच्छन्दी मुढसन्नगावाः वीरुधिद्रुह्लापितरो न उत्थैरद्रिम् मृजन्नङ्गिरसौरवेण चक्रुर्दिवो बृहतो गातुमस्मे अहस्वर्विदुः केतुमुस्राः दधन् नृतम् धनयन्नस्य धेतिमादिदर्योदिधिश्वो विभृत्राः अतृष्यन्तीरपसो यन्त्यच्छा देवान् जन्मप्रयसा वर्धयन्तीः यदि विभृतो मातरिश्वा गृहे गृहे श्येतोजेन्योऽभूत् आदीम्राज्येन सहीयसे स चासन्नादूत्या अम्भृगवाणो विवाय महे यत्पित्र ईम्रसं दिवेकरवत्सरत्प्रशन्यश्चिकित्तान् सृजदस्ताधिषता दिव्यमस्तायान् देवो दुहितरित्विषिन्धात् स्व आयस्तुभ्यन्दम आविभाति नमो बादाशादुषतोऽनुद्योन् वर्धो अग्ने वयो अस्य दिबर्हाया सद्राया सरथय्यञ्जुनासि अग्निम् विश्वा अभिवृक्षः सजन्ते समुद्रन्न स्रवतः सप्त जह्वीः न जामिभिर्विचिकिदेवयो नो विदा आयधिषे नृपतिम् ते ज आनक्षुचिरेतो ऋषिक्तन्त्योरभीके अग्निः श्रर्धमनवद्यम् युवानम् स्वाध्यञ्जनयत्सूदयच्च मनोरयोध्वनः सद्य एत्येकः सत्रासु रोमस्व गोषु प्रियमृतम् रक्षमाणा मानो अग्ने सख्यापित्र्याणि प्रमरुषिष्ठा अभिविदुष्कविः सन् नभो भो न रूपम् जरिमामिनाति अभिशस्ते रथीः निकाधस शश्वतस्करहस्ते रथा नो नर्याः पुरूणे अग्निर्भुवद्रयिपतीरयीणाम् सत्रा चक्राणो अमृता अस्मे वत्सम् परिषन्तन्न विन्दन्निच्छन्तो विश्वे अमृता अमूराः श्रमयुवः पदव्योऽधियन्धास्तस्थुः पदे परमे चार्वग्नेः तिस्रोजदग्ने शरदस्तामिच्छुचिम् कृते न शुजयस्व परिचार नामानिचिद्दधिरे यज्ञान्यसोदयन्त तन्वा असुजाताः आरोधसे बृहती वेविदानाः प्ररुद्रिया जभृदे जज्ञिया सह विदन्मर्तो नेमधिताचिकित्तानग्निम् पदे परमेतस्थिवांसम् सञ्जाना उपशीलन्नभिज्ञुपत्नीवन्तो नमस्य नमस्यन्वांसस्तन्वः कृण्वतस्वाः सखा सख्युर्न्निमिषि रक्षमाणाः त्रिः सप्त नित्वे इत्पदापि तन्निहिता यज्ञया सह ते भीरक्षन्ते अमृतम् स दोषाः पशूम् च स्थातॄम् च रथम् अग्ने वयुनानिक्षितीनाम् यानुषच्छुरुतो जीवसेधाः अन्तर्विद्वान्मध्वनो देवयानानतम् रो दूतो अभवो स्वाध्यो दिव आसप्तजह्वीराजो दुरोतज्ञा अजानन् विदद्गम्यम् सरमा दृढमूर्व्येनानुकम्मानुषेभोजते विट् आये विश्वास्वपत्यानि तस्थुः कृण्वानासोः अमृतत्ताय गातुम् मह्ना महद्भिः पृथिवी वितस्थे माता पुत्रैरतितीर्धाय सेवेः अधिश्रियन्निरधुश्चारुमस्मिन् दिवो यदक्षे मृदाखण्डन् अधक्षरन्ति सिन्धभो न सृष्टाः प्रणेचीरग्ने अरुषीरजानन् प्रजिर्नयः पितृवित्तोपयोधाः सुप्रणेरिश्चिकितुरजासोः यो न शीरतिथिर्न प्रेणा नो ते देवोनयः स पिता सत्यमन्माकृत्वा निपातिवृजराः निश्वाः पुरुप्रशस्तो अमतिर्न सत्य आत्मेवशेवोदिधिषाय्योऽभूत् देवोनयः पृथिवीम् विश्वथा या उपक्षेति हिरमित्रो न राजा पुरः सदःशम् असदो न तन्त्वानरोदम आनित्यमिद्धमग्ने सचन्तक्षितिशुद्ध्रुवासु अधिद्युम्नन्विदधुर्भोर्यस्मिन् भवा विश्वायुर्धरुणो रयीणाम् विप्रक्षो अग्ने मघवानो अश्युर्विसूरयो ददतो विश्ववायुः सनेमवाजन् समिथेश्वर्यो भागम् देवेषु श्रवसे ऋतस्य हि धेनवो वावशानास्मदूध्नेः पीपयन् पद्युभक्ताः परावरः सुमतिम् भिक्षमाणाभिसिन्धवः समया सश्रुरद्रिम् त्वे अग्ने सुमतिम् भिक्षमाणादिविश्रवो दधिरे यज्ञया सह नक्ता च चक्रुरुषसाविरूपे कृष्णम् च वर्णमरुणम् यान्द्राये वर्तान्सुषोदो अग्ने तेऽश्याममघवा नो भजम् च छायेवविश्वम् बभरंसि शक्ष्यापप्रिवान् रोदसी अन्तरिक्षम् अर्वद्भिरग्ने अर्वतो दृभिर्द्रान्वीरैर्वीरान्वनयामात्त्वताः ईशानासः पितृवित्तस्य रायोपि सूरयः शतहिमानो अस्युः एताते ते अग्न उचथानि वेदो निसंतु मनसे हृदे च शकेम राजः सुधुरोजमन्तेधिश्रवो देवभक्तम् दधानाः उपप्रयन्तो अद्धरम् मन्त्रम् वोचे माग्नये आरे अस्मे च शृण्वते यस्नेहि तेषु सूर्यः सञ्जग्मानासु तब्रुवन्तु जन्तव उदग्निरवृत्रभाजनि धनञ्जयोरणे एरणे यस्य दूतो अशिक्षयेवेषि हव्यानि वीतये दस्मत्कृणोष्यद्धरम् तमित्सु हव्यमङ्गिरस्वेवम् सहसोजहो जनाः आहुः सुबर्हिषम् आचवः आसिताङ्गह देवाङ्गुपप्रशस्तये हव्यासुश्चन्द्रवीतयेः नयोनुपग्दिरश्य शृण्वे रथस्य कश्चन यदग्नेयासि दोत्यम् पोतो वाज्यह्रयोभिपूर्वस्मादपरः प्रदाशाम् अग्ने अस्थात् उतद्युमत्सुवीर्यम् रहदग्नेऽपि विवाससि देवेभ्यो देवदाशुषे जुषस्व सप्रथस्तमम् वचो देवःसरस्तमम् हव्याजुह्वान आसनि अथा ते अङ्गिरस्तमाग्ने मेधस्तमप्रियम् वोचे मब्रह्मसारसि कस्ते जामिर्जनाः नामग्ने को दाश्वरः को ह कस्मिन्नसि श्रितः त्वम् जामिर्जनाः नामग्ने मित्रो असि प्रियः सखा सखिभ्य ईड्याः यया अग्नेयक्षिःस्पन्दमम् कात उपेमनसोबराजभुवदग्नेशन्तमाकामनीषा को वा यज्ञैः परिदक्षन्दपकेन वा ते मनसा दाशेम एह्यग्न इह होतानिषीदादब्धः सु पुर एता भवानः अवतान् पारोदसी विश्वमिन्द्रे या महेसौ मनसाय देवान् भवा प्रसु पावा प्रसुविश्वान् रक्षसोधक्ष्यज्ञे भवायज्ञानामभिशस्तिपावा अथावहसोमपतिम् हरिभ्यामातिथ्यमस्मै च क्रमासुदामुनेः प्रजावताप च सावन्निरासा च कुवेनि च सत्सीवदेवैः वेषिहोत्रमुतपोत्रम् यजत्र बोधिप्रयन्तर्जनितर्वसूनाम् यथा विप्रस्य मनुषो हविर्भिर्देवाम् अजः कविभिः कविः सन् एवाहोतः सत्यतरत्वमत्याग्ने मन्द्रया जुह्वायजः स तथा दाशेमाग्मयेकास्मै देवजुष्टोच्यते भाविनेगीः यो मत्येष्वृतगता बाहोतायतिष्ठ इति करोति देवा यो अध्वरेषु सन्तमरुता बाहो तातमो नमो अग्निर्यध्वेर्मर्ताय देवान्स च बोधादिमनसाय जा जाति स हि क्रतुः समर्यः स साधुर्मित्रो न भूदद्भुतस्य रचीः तम् मेधेषु प्रथमन्दे वयन्तेर्विष उपब्रुवते जस्मरीः स नो नृणानृतमो रिषादा अर्निर्गिरो वसावेतुधीतिम् तना आचरे मघवा नश्चा वाजप्रसूता इषयम् तवन्म एवाग्निर्गोतमेभिर्लता वा विप्रेभिरस्तोष्टजातवेदा स एषु द्युम्नम् पीपयत्स वाचम् स पुष्णीयातिजोषमाचिचित्ता भि त्वा गोतमा गिराजातवेदो विचर्षणे द्युम्नैरभिप्रणो नुमः तमुद्वा गोतमो गिरारायस्कामोदुपस्यति द्युम्नैरभिप्रणो नुमः तमुत्वावाजसा तममङ्गिरस्वर्धवामहे युम्नैरभिप्रणो तमुत्वा नुमः अवोचामरहूगणा अग्नये मधुमद्वचाः युम्नैरभिप्रणो नुमः हिरण्यकेशो रजसोऽपिसारे हिर्धुनिर्मात इवध्रजीमान शुचिभ्राजा उषसो नवे राजशस्वतीरपस्युवो न सत्याः आते सुपर्णामिनन्तम् एवैः कृष्णो नो नामवृषभो यदीदम् शिवाभिर्नः स्मयमानाभिरागात्पतन्ति मिहस्तनयन्त्यभ्रा यदे मृतस्य पयसापि यानो नयन्नृतस्य पथिभिरजिष्ठैः अर्जः मित्रो वरुणः परिज्ञमा त्वचम् रञ्जन्त्युपरस्य यो नो अग्ने वाजस्य गोमत ईशानः महिश्रवाः स इधानो वसुष्कविरग्निरीलेऽन्यो गिरा रेपदस्मभ्यम् पुर्वणि कदीदिः क्षपो राजन्नुदत्मनाग्नेऽवस्तो रुतोशसाः स दिग्मजम्भरक्षसो दाप्रति अवानो अग्न आनो अग्ने अग्नेरजिम् भरसत्रासाहं वरेण्ययम् विश्वासु पृत्सु दुष्टरम् आनो अग्ने सुचेतुना रजिम् विश्वायुपोषसम् मार्णीगन्धे हि जीवसे प्रभूतास्तिग्मशोऽचिसेवाचो गोतमाग्नये भरस्वसुम् न युर्गिराः यो नो अग्नेभिदासत्यन्ति दूरेऽपरीष्टसः अस्माकमिद्वृधे भव सहस्राक्षो विचर्षणिरग्निरक्षा हंसि सेधति होतागृणीत उक्त्याः इत्थाहि सोम इन्मदे ब्रह्मा चकारवर्धनम् चविष्ठवज्रिन्नोजसा पृथिव्यानिशावहिमर्चन्दनुः स्वराज्यम् सत्त्वामदद्वृशा मदः सोमश्येणाभृतः सुतः येनावृत्रन्निरद्भ्यो जघन्थवज्रिन्नो दशार्चन्दनुस्वराज्यम् प्रेह्यभीः सते इन्द्रनृम्णम् हि देशवोहनो वृत्रञ्जया अपोर्चन्दनुःस्वराज्यम् निरिन्द्रभूम्याधिवृत्रम् जघन्थनिर्दिवः सृजा मरुत्वतेरवजीवधन्या इमा अपोर्चन्दनुस्वराज्यम् इन्द्रो वृत्तस्य दोधतः सानुम् वज्रेण हीणिदः अभिक्रम्यावजिघ्नतेऽपः सर्मायचोदयन्नर्चन्दनुस्वराज्यम् अभिसानो निजिघ्नते वज्रेण शतपर्वणा मन्दा न इन्द्रो अन्धसः सखिभ्यो गातुमिच्छत्यच्चन्दनुस्वराज्यम् इन्द्रतोऽभ्यमिदद्रिवोनुत्तम् वज्रिन्वीर्यम् यद्धत्यम् माजिनम् नृगन्धमुक्तम् मायया अवधेरच्चन्दनुस्वराज्यम् विदे वज्रासोऽस्थिरन्नवतीनाम्या आनो महत्त इन्द्रवीर्यम् बाह्वोऽस्तेबलम् हितमर्चन्दनुःस्वराज्यम् सहस्रम् साकमर्चतपरिष्टोभत विंशतिः शतैनरन्मनो न पुरीन्द्राय ब्रह्मोऽद्यतमर्चन्दनुःस्वराज्यम् इन्द्रो वृत्रस्य तपिषेन्द्रिरहंसः सासहाः महत्तदस्य वंस्यम् वृत्रम् जघन्वाङ्स्वराज्यम् इमे चित्तव मन्यवेपे ते भियसा मही यदिन्द्रवजृणोजसा वृत्रम् वरुत्ताङ्गवधीरच्चन्दनुस्वराज्यम् न वेपसानतन्यतेन्द्रम् वृत्रोऽपिबीभयत् अभ्येनम् वज्र आयसः सहस्रभृष्टिरायतार्चन्दनुःस्वराज्यम् यद्वृत्तम् तव चाशनिम् वज्रेरसमयोधयः अहिमिन्द्रजिघाम् सतो दिविते बद्बधेशवोर्चन्दनुःस्वराज्यम् अभिष्टनेते अद्रिभो यत्स्था जगच्च पृष्टाः चित्तव मन्यह इन्द्रवे विद्यते बियार्चन्दनुःस्वराज्यम् न हि दुयाद धेमसेन्द्रम् को वीर्याः परः तस्मिन्द्रङ्णमुत क्रतुम् देवा ओजांसि सन्दसुरचन्दनुस्वराज्यम् यामथर्वामनुस्विता दध्यङ्गिजवत्नरा तस्मिन् ब्रह्माणि पूर्वजेन्द्र उक्था समग्वता चन्दनस्वराज्यम् इति प्रथमाष्टके पञ्चमोऽध्यायः